समीपतो भीममिदं शशास प्रदीयताम् पाद्यमर्घ्यं तथास्मै मान्यः राज्ञः तस्मै प्रयोज्याभ्यधिका पूजा भीमस्ततस्तत्कृतवान् नरेन्द्र तां चैव पूजां प्रतिगृह्य हर्षात् सुखोपविष्टं तु पुरोहितं तदा युधिष्ठिरो ब्राह्मणमित्युवाच पञ्चालराजेन सुता निसृष्टा स्वधर्मदृष्टेन यथा न कामात् प्रदिष्टशुल्काद्रुपदेन राज्ञा सा तेन वीरेण तथा न न तत्र वर्णेषु कृता विवक्षा न चापि शीलेन न गोत्रे कृतेन सज्येन हि कार्मुकेण विद्धेन लक्ष्येण हि सा विसृष्टा सेयं तथानेन महात्मनेः कृष्णा जिता पार्थिव संगमध्ये, नैवं गते सौमकिरद्य राजा सन्तापः मर्हत्य सुखाय कर्तुम् कामश्च पार्थिवस्य सम्प्राप्यरूपां हि नरेन्द्रकन्याम् इमामहं ब्राह्मणसाधु मन्ये न तद्धनुर्मन्दबलेन शक्यं मौर्व्यासमायोजयितुं तथा हि न चाकृतास्त्रेण न लक्ष्यं तथा पातयितुं हि शक्यम् तस्मान्नतापं दुहितुर्निमित्तम् पञ्चालराजोर्हति कर्तुमद्य न चापि तत्पातनमन्यथेह कर्तुं हि शक्यम् भुवि मानवेन एवम् ब्रुवत्येव युधिष्ठिरेतो पञ्चालराजस्य समीपतोऽन्यः तत्रा जगामाशु नरोद्वितीयो निवेदयिष्यन्निहसिद्धमन्नम् इति श्रीमहाभारते आदिपर्वणि वैवाहिकपर्वणि पुरोहितयुधिष्ठिरसंवादे द्विनवत्यधिकशततमोऽध्यायः